बुद्धिमन्तः पशुपक्षिनः कस्मिंश्चित् अरण्ये एकः महान् वटवृक्षः आसीत् तस्य वृक्षस्य पुरतः एव लतादिभिः आच्छत्रः कश्चन कूपः अपि आसीत् तत् वनं दूरे आसीत् तस्मिन् सर्पाः अपि निवसन्ति इति कारणेन कोपि मानवः तत्र न गच्छति स्म अतः पशुपक्षिणः सर्वे भयरहिताः सन्तः आनन्देन तत्र निवसन्ति स्म कदाचित् तत्र आगतः कश्चन व्यादः ततः एकं शशशावकं गृहीत्वा नीतवान् तत् अजानन् तस्य शावकस्य पिता वृद्धः शशः पुत्रम् अन्विष्यन् वने सर्वत्र अटितवान् कुत्रापि शावकः तेन न दुःखितः स शशः प्रत्यागमनसमये तत्र एकं विचित्रं दृश्यम् अपश्यत् कश्चन वानरः वृक्षशाखायाम् एकं शशं संस्थाप्य अन्यस्य शशस्य ग्रीवायां स्वमुखं स्थापयित्वा क्रीडन आसीत् तत् दृष्ट्वा सः वृद्धः शशः एषः दुष्टः वानरः शशस्य रक्तं पिबति इति चिन्तयित्वा भीत्या ततः प्रतिगन्तुम् उद्युक्तः तावता सः वानरः प्रातः भवान् कुत्र गतः आसीत् आगच्छतु किमर्थं प्रतिगच्छन् अस्ति इति अपृच्छत् तदा वृद्धः शशः अवदत् नैव भवता सः अस्माकं किं भवान् शशानां रक्तं पिबति भवतः मित्रत्वम् अस्माकं न आवश्यकम् इति तत् श्रुत्वा वानरः उच्चैः हसितवान् उक्तवान् च प्रातः एषः जीवन् शशः न अपि तु शशस्य प्लास्टिक् मयि अधुना मनुष्याः एतादृशी अनेकाः मूर्तिः कुर्वन्ति अद्य यदा अहं विपणीं गतवान् तदा एतां मूर्तिं दृष्टवान् ततः आनीतवान् च भवान् पश्यतु तदा विस्मितः सः बुद्धिशशशः स्वहस्तेन तं स्पृष्टवान् ततः अवदच्च मम पुत्रः लघुशावकः न दृश्यते अहं सर्वत्रान्विष्टवान् किन्तु सः कुत्रापि नास्ति तमेव अन्विष्यन् अत्र आगतः न जाने अधुना किं करणीयम् इति वानरः किश्चित् चिन्तयित्वा तत्रैव डयमानमेकं काकम् आहूय अवदत् भोः काक महती आपत् स्थित अस्था भा झटती सर्वान् पशुपक्षि एक मेल वानर वचना सर्वे पशुपचिन वटवृक्ष अदीलिता वान सर्वान् उद्द्य अवद भो वनवान अधुना अस्माकं शान्तेः भङ्गाः जायमानः अस्ति कदाचित् महती आपत् अस्माभिः सम्मुखीकरणीया अस्ति अस्मासु एकः शशशावकः न दृश्यते कश्चित् मानवः एव तं नीतवान् स्यात् श्वः परश्वः वा अन्येऽपि मानवाः अन्ये मानवा अत्र आगमिष्यन्ति अतः अस्माभिः इदानीमेव प्रतीकारः चिन्तनीयः येन कोपि मानवाः इतः परं कदाचित् नागच्छेत् इति ते सर्वे चिन्तनं कृतवन्तः अन्ते चतुरः काकः का एकम् उपायन् असूचयत् सर्वेपि तम् अङ्गीकृतवन्तः ततः ते सर्वे मिलित्वा लतादिभिः आच्छात्रस्य तस्य कूपस्य उपरि बहूनि तृणानि प्रसारितवन्तः तन्मध्ये वानरेण आनीतं शशपातिकूर् कूर्तिं खुड़... स्थापितवन्तः च कानिचन दिनानि अतीतानि सः पुनः मृगयार्दं तत्र आगतः अन्यं कमपि प्राणिनम् अदृष्ट्वा सः तां प्रतीकृतिं जीवन्तं शशः मृत्वा गृहीत्वा तत्र गतवान् यदा तत्र पदं स्थापितवान् तदा एव तत्रत्यै तृणैः सह कूपे पतितवान् कूपे विषवायुः आसीत् इत्यनेन सः व्याधः तत्रैव मरणं प्राप्तवान् तदनन्तरं कोऽपि मानवः तत्र न गतवान् पशुपक्षिणः सर्वे पुनः शी शान्त्य जीवनम् अकुर्वन्